सप्तमः सर्गः श्रीमहादेव उवाच वाल्मीकिनाबोहितोऽसौ कुशः सद्योगतभ्रमः अन्तर्मुक्तो बहिः सर्वमनुकुर्वम् स चारसः वाल्मीकिरपि तौ प्राह ीता पुत्रौ महाधियौ तत्र तत्र च गायन्तौ पुरे वीथिषु सर्वतः रामस्याग्रे प्रगायेताम् शुश्रूषो यदि राघवः न ग्राह्यम् वै युवाभ्याम् तद्यदि प्रदास्यति इति तौ चोदितौ तत्र गायमानौ विषेरतुः यथोक्तमृषिणा पूर्वम् तत्र तत्रार्ध्यगायताम् ताम् स शुश्रावकातुस्थः पूर्वचर्याम् अपूर्वपाठजातिम् च ज्ञेयेन समभिप्लुताम् बालयो राघवत् श्रुत्वा कौतूहलमुपेयिवान् अथ कर्मान्तरे राजा तमाहूयमहामुनीम् चैव नरव्याघ्रः पण्डितांश्चैव नैगमान् पौराणिकान् शब्दविदो ये च वृद्धाद्विजातयः सर्वान् समाहूय गायकौ समवेशयत् ते सर्वे हृः नसो राजानो ब्राह्मणादयः रामम् तौ दारकौ दृष्ट्वा विस्मिता यनिमेषणाः अवोचन् सर्व एवै इमौ राम स्य सदृशौ बिम्बाद्बिम्बमिवोदितौ जटिलौ यदि न स्याताम् न च वल्कलधारिणौ विशेषम् तदा एवम् संवदताम् तेषाम् विस्मितानाम् परस्परम् उपचक्रमतुर्गातुम् तावुभौ मुनिदारकौ ततः मधुरं मधुरम् श्रुत्वा तन्मधुरम् गीतमपराह्नेरघूत्तमः च भरतम् चाभ्याम् दीयतामयुतं वसु दीयमानम् सुवर्णन्तु न तज्जगृहतुस्तदा किमनेन सुवर्णेन राजन्नौ वन्यभोजिनौ इति सन्त्यज्यसन्दत् जग्मतुर्मुनिसन्निधिम् एवम् श्रुत्वा तु चरितम् रामस्वस्यैव स्वस्यैव विस्मितः ज्ञात्वा सीताकुमारौ तौ शत्रुघ्न चेदमब्रवीत् हनूमन्तम् सुषेणम् विभीषणमथाङ्गदम् भगवन्तम् महात्मानम् वाल्मीकिम् मुनिसत्तमम् आनयध्वम् मुनिवरम् ससीतम् देवसम्मितम् अस्यास्तु पर्षदो मध्ये प्र यम् जनकात्मजा करोतु शपथम् सर्वे जानन्तु गतकल्मषाम् सीताम् तद्वचनं श्रुत्वा गता सर्वेति विस्मिताः ऊचुर्यथोक्तम् रामेण वाल्मीकिम् रामपार्षदाः रामस्य हृद्गतम् सर्वम् ज्ञात्वा वाल्मीकिरब्रवीत् त्वः करिष्यति वै सीता शपथम् जनसंसदि योषिताम् परमम् दैवम् पतिरेव न संशयः तच्छ्रुत्वा सहसा गत्वा सर्वे प्रोचुर्मुनिर्वचः राघवस्यापि रामोऽपि श्रुत्वा मुनिवचस्तथा राजानो मुनयः ऋणुध्वमिति चा ब्रवीत् सीतायाः शपथम् लोका विजानन्तु शुभाशुभम् इत्युक्ता राघवेणाथ लोकास् सर्वेदिदृक्षवः ब्राह्मणाः क्षत्रिया वै ्याः शूद्राश्चैव महर्षयः वानराश्च समाजग्मुः कौतूहलसमन्विताः ततो मुनिवरस्तूर्णम् सीतः समुपागमति अग्रतस्तमृषिम् कृत्वा यान्ति किञ्चिदवाङ्मुखी कृताञ्जलिर्बाष्पकणासीतायज्ञम् विवेशतम् दृष्ट्वा लक्ष्मीमिवायान्तीम् ब्रह्माणमनुयायिनी वाल्मीके पृष्ठतः साधुवादो महानभूत् तदा मध्ये जनौघस्य प्रविश्य मुनिपुङ्गवः सीतासहायो वाल्मीकिरिति प्राहच राघवम् इयम् दाशरथे सीता, सीता सुव्रता धर्मचारिणी अपाते पुरा त मक्रम समीपत लोकापवादीन या राने प्रत्यय दास्ते सीता तदनुासी इमौ तु सीतातनयाविमौ यमलजातकौ सुतौ तु तव दुर्धर्षौ तथ्यमेतद्ब्रवीमिते प्रचेतसोऽहम् दशमः पुत्रो रघुकुलो द्वः अनृतम् न तथेमौ तव पुत्रकौ बहून्वर्षगणान् सम्यक्ततश्चर्या मया कृता नोपश्नीयाम् फलम् तस्या दुष्टेयम् यदि मैथिली वाल्मीकिनैव वा मुक्तस्तु राघवः प्र त्यभाषत एवमेतन्महाप्राज्ञ यथा वदसि सुव्रत प्रत्ययो जनितो मह्यम् तव वात्यैरकिल्बिषैः लङ्कायामपि दत्तो मे वै देह्या यो महान् देवानाम् पुरतस्तेन मन्दिरे सम्प्रवेशिता सेयम् लोकभयाद्ब्रह्मन्नपापि सती पुरा सीता मया परित्यक्ता भवांस्तत्क्षन्तुमर्हति ममैव जातौ जानामि पुत्रावेतौ कुशीलवौ शुद्धायाम् जगती मध्ये सीतायाम् प्रीतिरस्तु मे देवाः सर्वे परिज्ञाय कामाभिप्रायमुत्सुकाः ब्रह्माणमग्रतः कृत्वा समाजद्मुः सहस्रशः प्रजाः समागमन् सीता कौशेयवासिनी उदन्मुखी यथो दृष्टिः प्राञ्जलिर्वाक्यमब्रवीत् मादन्यम् यथाहं वै मनसापि न चिन्तये तथा मे धरणी देवी विवरम् दातुमर्हति तथा शपञ्चाः सीतायाः प्रादुरासीन् महाद्भुतम् भूतलाद्दिव्यमत्यर् सिंहासनमनुत्तमम् नागेन्द्रैर्ध्रियमाणम् च दिव्यदेहैरविप्रभम् भूदेवी जानकीम् दोर्भ्याम् गृहीत्वा स्नेहसंयुता स्वागतम् तामुवाचैनामासने सञ्वेशयत् सिंहासनस्ताम् वै देहीम् प्रविशन्तीम् रसातलम् निरन्तरापुष्पवृष्टिर्दिव्या सीतामवाचिरत् साधुवादश्च च सुमहान् देवानाम् परमाद्भुतः कूतुश्च बहुधा वाचोष्ट्यन्तरिक्षगताः सुराः अन्तरिक्षे च भूमौ च सर्वे स्थावरजङ्गमाः वानराश्च महाकायाः सीता चपथकारणात् केचिच्चिन्तापरास्तस्य केचिद्ध्यानपरायणाः केचिद्रामम् निरीक्षन्तः केचित् सीतामचेतसः मुहूर्तमात्रम् तत्सर्वम् ूष्णीम् भूतमचेतनम् सीताप्रवेशनम् दृष्ट्वा सर्वम् सम्मोहितम् जगत् रामस्तु सर्वम् ज्ञात्वैव भविष्यत्कार्यगौरवम् अजानन्निव दुःखेन सुशोचजनकात् मजाम् ब्रह्मणा बोधितो रघुनन्दनः प्रतिबुद्ध इव स्वप्ना चकारानन्तराः क्रियाः विससर्जऋषीन् सर्वानृत्विजो ये समागताः न् सर्वान् धनरत्नाद्यैः स्तोषयामास भूरिशः उपादाय कुमारौ सावयोध्यामगमत्प्रभुः सर्वभोगेषु सर्वदा आत्मचिन्तापरो त्यमेकान्ते समुपस्थितः एकान्ते ध्याननिरते एकदाराघवे सति ज्ञात्वा नारायणम् साक्षात् कौसल्या प्रियवादिनी भक्त्या प्रसन्नम तम प्रणता पृषधिरादिम्तवर्जि पर पूर्ण पुष्व जा मे गर्भगृह मम पुण्यातिरेकतः अवसाने ममाप्यद्यसमयोभूद्रघूत्तम नाद्याप्यबोधजः कृत्स्नो भवबन्धो निवर्तते इदानीमपि मे ज्ञानम् भवबन्धनिवर्त कम् यथा कङ्क्षेपतो भूयात् तथा बोधय माम् विभो निर्वेदवादिनीमेवम् मातरम् मातृवत्सलः दयालुः प्राह धर्मात्मा जराजर्जरिताम् शुभाम् मार्गास्त्रयोमया प्रोक्ताः पुरा मोक्षाप्तिसाधकाः कर्मयोगो ज्ञानयोगो भक्तियोगश्च शाश्वतः नुना स्वभावो भक्तिर्ज्य माता स्विधा गुणभेद स्वभार्जते यु हिंसा सुद्दिश दंभम मसल्यमे वेददृष्टिश्चरं भक् मे तमस स्मृत फलासधिर्भोगाी धनकामों यशस्था भेदमुध्या भेदबुद्ध्यां पूजयेत, राजस पितम यु कर्तव्यमितिवा, कर्मणा वर्तव्येदबुसात्त्क मद्गुश्रय मयुणल अवच्छिन्नावृत्ति गंगा गुना तदेव भक्तियोगस्य लक्षणम् निर्गुणस्य हि अहैतुक्य व्यवहिता या भक्तिर्मयि जायते सामे मे सा लोक्य वा ददात्यपि न भक्ता मत्स्येवनम् विना स एवात्यन्तिको योगो भक्तिमार्गस्य भामिनि मद्भावम् प्राप्नुयात्तेन अतिक्रम्यगुणत्रयम् महता कामहीनेन स्वधर्माचरणेन च कर्मयोगेन शस्तेन वर्जितेन विहिंसनात् मद्दर्शनस्तुतिमहापूजाभिः स्मृतिवन्दनैः भूतेषु मद्भावनया सङ्गेनासत्यवर्जनैः बहुमानेन महताम् दुःखिनामनुकम्पया स्वसमानेषु मैत्र्या च यमादीनाम् निसेवया वेदान्तवाच्यश्रवणान् मम नामानुकीर्तनात् सत्सङ्गेनार्जवेनैव यह मह परिवर्जनात् काङ्क्षया मम धर्मस्य परिशुद्धान्तरो जनः मद्गुणश्रवणादेव याति मामञ्जसा जनः यथा योगाभ्यासरतम् चित्तमेवमात्मानमाविशेषत् सर्वेषु प्राणिजातेषु ह्यहमात्मा व्यवस्थितः तमज्ञात्वा विमूढात्मा बहिः क्रियोत् उत्पन्नैर्नैकभेदैर्द्रव्यैर्ने नाम्बतोषणम् भूतावमानिनाच्चायामर्चितोऽहम् न पूजितः तावन्मा मर्चयेद्देवम् प्रतिमादौ स्वकर्मभिः यावत् सर्वेषु भूतेषु स्थितम् चात्मनि न स्मरे यस्तु भेदम् प्रकुरुते स्वात्मनश्च परस्य च भिन्न मृत्युस्तस्य कुर्यान्न संशयः परि छिन्नेषु संस्थितम् एकम् ज्ञानेन मानेन मैत्र्या सर्वभूतानि प्रणमेत् ज्ञात्वा माम् चेतनम् शुद्धम् जीवरूपेणसं जीवरूपेण संस्थितम् तस्मात्कदाचिन्नेक्षेतभेदमीश्वरजीवयोः भक्तियोगो ज्ञानयोगो मया मातरुदीरितः आलम्ब्यैकतरम् वापि पुरुषः शुभमृच्छति ततो माम् भक्तियोगेन मातः सर्वहृदि स्थितम् पुत्ररूपेण वा नित्यम् स्मृत्वा शान्तिमवाप्यसि श्रुत्वा रामस्य कौसल्यानन्दसंयुता रामम् सदा हृदि ध्यात्वा छित्त्वा संसारबन्धनम् अतिक्रम्य गती सोऽप्यवाप परमाम् गतिम् कैकेयी चापि योगम् रघुपतिगदितम् पूर्वमेवाधिगम्य श्रद्धा भक्ति प्रशाता हृदि गत्वा भाव गता सु सहिता दशरथसहिता मोदनावतस्थे माता श्री श्रीलक्ष्मणस्यतिमलमतिपत् ीपम् इति श्रीमदध्यात्मरामायणान्तर्गते उमामहेश्वरसंवादे उत्तरकाण्डे सप्तमः सर्गः